अष्टमोऽध्याय ध्यानम् ओ अरुणाम् करुणातरङ्गिताखि हृदभाषाङ्कुशबाण चापहत्ताम् अष्टमोऽध्याय ध्यानम् ओ अरुणाम् करुणातरङ्गिताखि हृदभाषाङ्कुशबाण चापहत्ताम् अणिमादिभिरावृताम् मयूखैः अणिमादिभिरावृताम् मयूखैः अहमित्येव विभावये भवानी अहमित्येव विभावये भवानी ॐषिरुवाच ॐषिरुवाच तण्डे तनिहते दैक्ये मुण्डे च कन्देतनिहते दैत्ये मुन्दे तनिपातिते बहुलेषु च सैन्येषु क्षयितेश्चतुरेश्वरः बहुलेषु च सैन्येषु क्षयितेश्चतुरेश्वरः ततः कोपपदाधीनदेता शुम्भप्रदापवान् ततः कोपपदाधीनरेता शुम्भप्रदापवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेशः उद्योगम् सर्वदैन्यानाम् दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्या शनशीतिरुदायुधाः अद्य सर्वबलैर्दैत्या शनशीतिरुदायुधाः कम् मूनासरुरस्वीतिर्निर्यानुरत्वबलैर्भृताः कम् मूनासरुरस्वीतिर्निर्यान्तुत्वबलैर्भृताः कोटिवीर्याणि पञ्चचाशदसुराणाम् कुलानि वै कोटिवीर्याणि पञ्चचाशदसुराणाम् कुलानि वै शतं कुलानि धौङ्ग्राणाम् निर्गच्छन्तु ममाग्रया शतम् कुलानि धौङ्ग्राणाम् निर्गच्छन्तु ममाद्यया कालकादौर्हृदा मौर्याः कालकेयास्तथासुराः कालकादौर्हृदा मौर्याः कालकेया सधातुराः युद्धाय सज्जाः निर्यान्तु आध्ययात्मरिता मम युद्धाय सज्जाः निर्यान्तु आध्ययात्मरिता मम इद्याज्ञाप्यासुरपतिः शृङ्गो भैरवशासनः इद्याज्ञाप्यासुरपतिः शृङ्गो भैरवशासनः निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः आयान्तम् चण्डिकादृष्ट्वा तत्सैन्यमतिभीषणम् आयान्तम् चण्डिकादृष्ट्वा तत्सैन्यमतिभीषणम् ज्यात्वनैः पूरया मासधरणी ततः सिंहो महानादमतीव कृतवान् नृप ततः सिंहो महानादमतीव कृतवान् नृप घण्टास्त्वनेन तन्नागमम्बिकासोपबृंहयत् घण्टास्वनेन तन्नागमम्बिकासोपबृंहयत् घरुज्यासिंहघण्टानाम् नादापूरितदिमुखा घरुज्यासिंहघण्टानाम् निनादैर्भीषणे काली जिज्ञे विस्तारितानना निनादैर्भीषणैः काली जिज्ञे विस्तारितानना तम् निनादमुपसृत्य दैत्यसैन्यैश्चतुर्दिथम् तम् निनादमुपसृत्य दैत्यसैन्यैश्चतुर्दिथम् देवी सिंहस्तथा काली देवी सिंहस्वभाकाली सरोषैः परिपादिताः एतस्मिन्नन्तरेय सुरद्भिषाम् एतस्मिन्नन्तरेहानाञ्जिताः भवायामरसिह्नामतिवीर्यपलाञ्जिताः ब्रह्मे च गुहविष्णूनाम् तथेन्द्रकटचक्तयः ब्रह्मेट गुह विष्णूनाथेन्तशक्त शरीरभ्यो गिक्रम्य तद्रूपैशंगिका जिलु शरीरभ्यो गिक्रम्य तद्रूपैशंगिका जिलु यद्रप्ं यहानम यद्रूपं यूषणवाहन तत्वित शक्तिरसुराण्योद्भुम तत्त्वदेवहितः शक्तिरसुरान्योद्भुमाययौ हंसयुक्तविमानाग्रेताक्षसूत्रकमण्डलुः हंसयुक्तविमानाग्रेताक्षसूत्रकमण्डलुः आयाता ब्रह्मणः शक्तिर्ब्रह्माणि आयाता ब्रह्मणः शक्तिर्ब्रह्माणि साभिधीयते माहेश्वनी कृषारूढा त्रिशूलवरधारिणी महेश्वरीूा त्रिशूलवरधारिणी महावलया प्राता तम्रलेखा विभूषण महावल प्राप्ता तंग्रेखा विभूषण कौम शक्ति हता मयूरवरवाहना कौमशक्ति हता मयूरवरवाहना योद्धुभ्या दईसाननमिणी योद्धुभ्यायी तथा शक्तिर्गरपरी संस्थि तथा शक्तिर्गरपरी संस्थिशादस्ताभ्युपा कंखचक्र गदाचारज्जहताभ्युपय यहा मधुर मतुलं या बिभ्रतो हरेह यज्ञवाराहमतुलम् रूपम् या बिभ्रतो हरेः शक्तिस्तास्यायौ तत्र वाराहीम् बिभ्रतीतनुम् शक्तिस्तास्यायौ तत्र वाराहीम् बिभ्रतीतनुम् ज्ञानसिंही द्वृसम्भस्य प्राप्ता तत्र सताक्षेपक्षित्तनक्षत्रसंहतिः प्राप्ता तत्र सता क्षेपक्षिप्तनक्षत्रसंहतिः वज्रहस्ता तथैवजोपरिस्थिता वज्रहस्ता तथैव गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा चक्रत्वथैव साप्ता सहस्रनयना यथा चक्रत्वथैवता ततः परिवृतस्ताभिो देवशक्तिभिः ततः परिदृतत्ताभिो देवशक्तिभिः हान्यन्तामसुरास् शीघ्रम् मम प्रीत्या हान्यन्तामसुराश्चीघ्रम् मम प्रीत्या ततो देवि शरीरात्तु विनिश्रान्तातिभीषणा ततो देवि शरीरात्तु विनिश्रान्तातिभीषणा चण्डिकाशक्तिरत्युग्राशिवाचतनिनादिनी कण्डिकाशक्तिरत्युग्राशिवाचतनिनादिनी ताताहभूङ्गजटिलभीषानमपरादिता साताः भूङ्गजटिलभीषानमपराधिता दूतत्वम् कच्छ भगवन् पार्श्वम् शुम्भनि शुम्भयोः दूतत्वम् कच्छ भगवन्पार्श्वम् शुम्भनि शुम्भयोः भ्रूहि कुम्भम् निशुम्भम् भ्रूहि कुम्भम् निशुम्भम् तदानवागतिगर्वितौ एतान्ये दानवास्तत्र युद्धाय समुपस्थिताः क्रैलोऽप्यविन्दो नभताम् देवास्तन्तु हविर्भुजः यूयम् प्रयातपातारम् यदि जीवितुमिच्छस यूयम् प्रयातपातालम् यदि जीवितुमिच्छस बलाबले पाधतेद्भवन्तो युद्धकाङ्क्षिनः तदा गच्छतृप्यन्तु मत्सिवाः पिषितेनवः सदागच्छतृप्यन्तु मत्सिवाः पिपितेनवः यजोनियुक्तो दौत्येन पया देव्यादिवस्त्वयम् ययोनियुक्तो दौत्येन तया देव्यादिवस्त्वयम् शिवदूतीति लोकेऽस्मिन् ततस्ताख्यातिमागता शिवदूतीति लोकेऽस्मिन् सतस्सा ख्यातिमागता तेऽपि श्रुत्वा बसो देव्या शर्वाख्यातम् महादुराः तेऽपि श्रुत्वा बसो देव्या शर्वाख्यातम् तदः प्रथममेवाग्रे सरसकृष्टिवृष्टिभिः सरः प्रथममेवाग्रे सरसकृष्टिवृष्टिभिः बवर्षरुद्भतामर्शात् ताम् देवी मम रारयः बवर्षरुद्भतामर्शात् देवी मम रारयः सासतान् प्रहितान् बाणान् थूलशक्तिपरश्वधान सासतान् प्रहितान् बाणान् स्थूलशक्तिपरश्वधाम ्रतत तथादि खड्वा था खड्वान् गपोदिताम् शारीन् कुर्वती व्यतरत्तदा कमण्डलुजला क्षेतहतवीर्याह्तौ जतः कमण्डलजला क्षेतहतवीर्याह्तौ जतःकरोत् शत्रून् येन येन ब्रह्माणीजाकरोत् शत्रून् येन येन स्मधावती बाहेश्वरी त्रिशूलेन तथाचक्रेण वैष्णवी माहेश्वरी त्रिशूलेन तथाचक्रेण वैष्णवी दैत्याम् जघानकौमारी तथा शक्त्यातिकोपना दैत्याम् जघानकौमारी तथा शक्त्यातिकोपना ऐन्द्रिलिशपातेनोदैत्यदानवाः ऐन्द्रि उलिशपातेन सतशोदैत्यदानवाः हेतुर्विदारिका पृथ्व्याम् मृधिरोघप्रवर्षिणः हेतुर्विदारिता पृथ्या मृदिलौभप्रवर्षिणः तुण्डप्रहारविध्वस्ता दंष्ट्वाग्रक्षतवक्षसः तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः वाराहमूर्त्यापतम् चक्रेण च विदारिताः वाराहमूर्त्यान्यपतम्श्चक्रेण च विदारिताः नहे विदारितां शान्यान् भक्षयन्ति महासुरान् नहे विदारितां शान्यान् भक्षयन्ति महासुरान् नारसिंही गता राजौ नादापूर्णरियंवरा नारसिंही गता राजौ नादापूर्णरिरम्बरा चण्डाट्कहासे रथुराक्षिवतोऽत्यभिसूचिताः खण्डाट्टहासैरसुराश्चिवतोऽत्यभिसूचिताः पेरुकृषव्याम् पतिताम् ताम् चखादाथसा तदा पेरुकृषर्याम् पतिताम् ताम् चखादाथसा तदा इति मातृगणम् पृपृथम् अर्जयन्तम् महासुरान् इति मातृगणम् पृपृथम् अर्जयन्तम् महासुरान् दृष्ट्वा ध्रुवायैर्विविधैर्नेतुर्देवारिसैनिकाः दृष्ट्वा ध्रुवाजैर्विविधैर्नेसुर्देवारिसैनिकाः पलायनपराण् दृष्ट्वा धैत्यान्मात्रगणार्जितान् पलायनपराण् दृष्ट्वा धैत्यान्मातृगणार्जितान् योद्धुमध्याययौ क्रुद्धो रक्तबीजो महासुरः योद्धुमध्याययौ क्रुद्धो रक्तबीजो महाधुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्याम् तत्प्रमाणस्तदा सुरः समुत्पतति मेदिन्याम् तत्प्रमाणस्तदा सुरः लिलुधेसकदा पाणिरिन्द्रशक्या महासुरः लिलुधेसकदा पाणिरिन्द्रशक्या महासुरः सतत्तैन्द्रिस्वभ्रेण रक्तबीजमताडयसे ततः चैन्द्री स्वभज्रेण रक्षबीजमसाडयत् कुलिशेन हतस्याशु बहुसुत्रावशोणितम् कुलिशेन हतस्याषु बहुसुत्रावशोणितम् योधास्तद्रूत्तस्पृस्ततो योधास्तद्रूपास्तत्पराक्रमाः यावन्तः पतितास्तस्य शरीराज्रप्रन्दवः यावन्तः पतितास्तत्र शरीरा जग्रबिन्दवः तावन्तः पुरुषाजातास्तीर्यबलविक्रमाः तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः चेतापीलभः सत्र पुरुषारक्षसम्भवाः चेताबीलभः सत्र पुरुषारक्षसम्भवाः समम् मातृभिरत्युग्रशस्त्रपातादिभीषणम् समम् मातृभिरत्युग्रशस्त्रपातातिभीषणम् पुनश्च वज्रपातेन क्षटमश्चिरो वज्रपातेन क्षटमश्चिरोहलक्तम् पुरुषात्ततो जातास्सहस्रकः वैष्णवीसमदेशैनम् चक्रेणाभिजगानः वैष्णबीतमदेशैनम् चक्रेणाभिजगानः गदयाताडयामास इन्द्रीतमसुरेश्वरम् गदयाताडयामास ऐन्द्रितमसुरेश्वरम् वैष्णबीचक्रभिन्नस्य रुधिरत्रावसम् भवैः वैष्णबीचक्रभिन्नस्य रुधिरत्रावसम् भवैः सहस्रशो जगद्याप्तम् तत्प्रमाणैर्महासुरैः सहत्वशो जगद्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या जघाजकौमारी बालाही च तथाधिना माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरम् माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरम् तथापि कदयादैत्यः सर्वा एवाहनपृथक् सचागदया दैत्य सर्वा एवाहृथक मातृप विष्टोरबीजों महासुर मातृप विष्टोरबीजों महासुर तरह तहुधा कक्तिशूलाभुयात से बहुधा घस्ते पातयोगक्तों सेना सतशोधुरा पपातयो वैरक्षोघस्तेदासङ्ख्यतशो दुराः तैश्चासुरातृक्तम् भूते रसुरै सकलम् जगत् तैश्चासुरातृक्तम् भूते रसुरै सकलम् जगत् व्याप्तवासीत्ततो देव भयमाजग्मुरुत्तमम् व्याप्तवासीत्ततो देव भयमाजग्मुरुत्तमम् साङ्िषण्णान्तुरान् वृष्ट्वाथण्डिका प्राहसत्त्वरा साङ्षण्णान्तुरान् वृष्ट्वाथण्डिका प्राहसत्वरा उवाचकालीम् चामुण्डे विस्तीर्णम् वदनम् कुरु उवाचकालीम् चामुण्डे विस्तीर्णम् वदनम् मध्यस्वपातसम्भूतान् रक्तबिन्दोन्महासुरान् रक्तबिन्दोः प्रतिष्ठत्वम् वक्रेणानेन भेगिना रक्तबिन्दोः प्रतिष्ठत्वम् वक्रेणानेन भेगिना भक्षयन्तीतररणे तदुत्पन्नान्महासुरान् भक्षयन्तीतररणे तदुत्पन्नान् महासुरान् एवमेधक्षयम् दैव्यः गमिष्यति एवमेधक्षयम् दैत्यः चीनरक्तो गमिष्यति हरस्यमाणा स्वयासोग्रा नस्यन्ति चापरे हरस्यमाणा चापरे इत्युक्त्वाताम् ततो देवि शूलेनाभिजघानतम् इत्युक्त्वाताम् ततो देवि शूलेनाभिजघानतम् मुखेन कालीजगृहे रक्तबीजस्य शोणितम् मुखेन कालीजगृहेण कबीजस्य शोणितम् ततो सा वाजघानाथ गदया तत्रचण्डिकाम् ततो सा वाजघानाथ गदया तत्रचण्डिकाम् असास्यावेदनाम् चक्रे गदापातोल्पिकामपि हतास्यावेदनाम् चक्रे गदापातोऽल्पिकामपि तस्याः तस्य देहात्तु गोः पुत्रावशोणितम् तस्याहतस्य देहात्तु बहु दुश्रावशोणितम् यतस्ततस्तद्वक्त्रेण कामुण्डासम् प्रतीक्षति यतस्ततस्तद्वक्त्रेण कामुण्डासम् प्रतीक्षति मृधे समुद्गताये स्यारक्तपातान्महासुराः मृधे समुद्गताये स्यारक्तपातान्महासुराः सांश्च कादातमुण्डापकौ सस्य च शोणितम् तां प्रकादा तदा देवी पपौ तस्य चशोणितम् देवीदूलेन वज्रेण बाणेरसिभिरिष्टिभिः देवीदूलेन वज्रेण बाणेरसिभिरिष्टिभिः गर्हानरक्तबीजन्तम् चामुण्डाबीतशोणितम् गर्हानरक्तबीजन्तम् चामुण्डाबीतशोणितम् तपपातमही पृष्ठे तत्र सङ्घसमाहतः तपपातमही पृष्ठे च सङ्घसमाहतः नीरक्रश्चमही पादरक्तबीजो महातुरः नीरक्रश्चमही पादरक्तबीजो महातुरः ततस्तेहर्षमतुलमबापुस्त्रिरशाण्डृप ततस्ते हर्षमतुलमबापुस्त्रिरशाण्डृप तेषाम् मातृगणो जातो ननत्रासङ्मतोद्भतः ेषा मातृगणो जातो ननत्ता कृमदोत्फतः